तेषां शराणां वेगेन शितानां तिग्मतेजसां विमुह्यमानोराधेयो राधेयो यत्नात्तमनुधावति तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ अयुध्येतां सुसंरद्धावन्योन्यविजिगीषिणौ कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे इति शूरार्थवचनैः अभाषेतां परस्परं ततोऽर्जुनस्य भुजयोः वीर्यमप्रतिमं भुवि ज्ञात्वा वै कर्तनः कर्णः प्रयुक्तां स्तान् वेगवतस्तदा प्रतिहत्य ननादोच्चैः कर्णौ वाच तुष्यामि भुजवीर्यस्य संयुगे अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम अथ साक्षाद्धरिहयः साक्षाद् वा विष्णुरच्युतः आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः विप्ररूपं विधायेदं मन्येमां मां प्रति युध्यसे न हि मामाहवे क्रुद्धम् अन्यः तमेवं वादिनं तत्र फाल्गुनः प्रत्यभाषत नास्मि कर्णधनुर्वेदो नास्मि रामः प्रतापवान्